गर्गसंहिता खण्डं सवन् विश्वजित् खण्डम् अध्यायं ट्वेण्टि श्रीनारद उवाच तथैव कौरवाः सर्वे निर्गदा दीप्तमन्यवः स्वै स्वैर बलै समायुक्ता योद्धुं प्रद्युम्न सम्मुखे विजयध्वज संयुक्ता रनकमंडिता गजिहुस्वर्णशृंखलालयातसघर्ष्वनिकारिणा गजष्टिसहस्राणी दुंदुना गजागावो बृहद्भल्लालोहकञ्चुकमण्डिताः शिरस्रङ्मौलिसंयुक्ता द्विलक्षणानि द्विलक्षाणि विनिर्ययौ हेमकङ्कणकेयूरकिरीडवरकुण्डलाः गजस्ताश्च द्विलक्षाणि निर्ययुस्वर्णकञ्चुकाः पीदपञ्चुकसंयुक्ता स्थिर्यघुष्णीषशालिनः गजस्ताश्च द्विलक्षाणि सङ्ग्रामे लब्धकीर्तयः रक्ताम्बरधर केजिद्रक्तभूषणभूषिताः रक्तकम्बलसंयुक्तैर्गजैरुचैर्विनिर्गताः कृष्णाम्बरधरा केजि देव केजिच्छुक्लाम्बरा केजिन्निर्ययुक्पाडलाम्बराः रथैश्च देवधिष्ण्याभैर्मृगेन्द्रध्वज शोभितैः कोडिशो नृपाः आङ्गैर्भाङ्घैः सैन्धस्वैश्च चञ्चलैस्तुरघैर्नृपाः मनोजवैस्वर्णभूषैर्निर्ययुशस्त्रसम्वृद्धाः समन्तान् निर्युकण्डित कञ्चुकण्डीताः समन्तान् निर्ययुर्वीरालोह कञ्चुकखण्डीताः विद्याधरसमराजन् सङ्कुलायुद्धशालिनः जगुर्यश कौरवाणां सूदमागतवन्दिनः धैरीमृदङ्गैपडखैरानकैर्युद्धनिस्वनैः खायर मृगेन्द्रध्वजसंयुक्त शुक्लवाहनियोजितैः व्रजनैर्वज्रदण्डैश्च चामरान्दोलराजितैः चतुर्योजनमात्रेण चा चन्द्रमण्डलचारुणा चत्रेण चा मण्डिते राजभिर्दत्तेन मनोहरे दुर्योधनो सैन्ये महदि स्यन्दने स्थितः तदा न्येधार्थराष्ट्राश्च स्यन्दने स्यन्दने स्थिताः चतुर्योजनमात्रैश्चत्रैर्मुक्ता विलम्बिभिः सुरथेनादिभीष्मेण कृपेण गुरुणा बाह्लीकर्णशैल्यैश्च सोमदत्तेन धीमदा अश्वम्ना च धौम्येन लक्ष्मणेन धनुष्मदा शकुनिना च तथा दुष्यासनेन च सञ्जयेन तथा साक्षाद्भूरिना यज्ञकेतुना सुयोधनो नृपो रेजे शक्रोमरुद्गणैः इन्द्रप्रस्थात् पाण्डुपुत्राय् प्रेषितं प्रदनाद्वयं तदैव चागदं राजन् कौरवाणां सहाय्य कृत अक्षौहिणीभिः षोडशभिः चलदां ददां चचाल भूदिशो नेदु रजो व्याक्तं न भवद तारकेव भव सूर्यो गजाश्वरथरेणुभिः रथरेणुभिः अन्धकारो भवद्भूमौ देवः सर्वे शङ्किताः यत्र तत्र गजानां च नोदनाभिश्च भूरुहाः निपेदुस्तुरगैर्वीरैः क्षणम् भूखण्डमण्डलम् सेनाकुरूणाम् वृष्णीनां युयुधुश्च परस्परम् तीक्ष्णैः शस्त्रैर्यथा सप्तसमुद्रास्तरलैर्लये हया हयैरिपाश्च भैरथिनो रथिभिः सह श्येनैः श्ययिव क्रव्ये पतयपतिभिर्मृदे महामात्यैर्महामात्य सुदासुदैर्नृपैर्नृपाः युयुधु क्रोधसंयुक्ता सिंहै सिंहा इवौजसा खड्घै कुन्धै शक्रिभिश्चभल्लै पट्टिषमुद्गरैः दासलैश्चक्रैस्तोमरभिंदीपालक शिर्भुशुंडी कुफु चिच्चिदुर्बाणपढ़ल शिरां क्रोधमूर्छिद बाणांधकार संजाते प्रद्युनोधनिना वरहा दुर्योधनेन युयुधेदनुष्टङ्कारयन्मुहुः अनिरुद्धश्च भीष्मेण दीप्तिमांश्च कृपेण वै भानुर्द्रोणेन साम्बास्तु बाह्लीकेन नृपेश्वरः मधुकर्णेन चायुध्यद् बृहद्भानुशलेन वै चित्रभानुर्हरे पुत्रसोमदत्तेन धीमद अश्वद्धाम्ना मृगश्चैवारुणो धौम्येन मैथिला पुष्करो लक्ष्मणेन अशु दुर्योधनसुधेन वै वेदबाहुकृष्णसुदशगुनेन महामृधे दुःशासनेन समरे श्रुतदेवो हरे सुधः तदा हि युयुधे युद्धे संजयेन सुनन्दनः विदुरेण गद साक्षात्कृतवर्मा च भूरिणा अक्रूरो युयुधे राजन्नाघवे यज्ञकेदुना एवं परस्परं युद्धं बभूव तु मुलं महद कार्ष्णिर्विलोकयामास दुर्योधनबलं महद बाणसन्धेन वाराहो दंष्ट्रया जयधार्णवं मुक्तिफलानि रेजु कौ रात्रौ तारागणा इव बाणैः सम्पादयामासु रथिनसारथीन् रथान् महामृधे मैथिलेन्द्रवेगैर्वादो यथा तरुन् दुर्योधनस्तदा प्राप्तो धनुष्टङ्कारयन्मुहुः प्रद्युम्नं ताडयामास सायकैर्दशभिर्मृधे तान् प्रचिच्छेद भगवान् प्रद्युम्नो यादवेश्वरः दुर्योधनपुनस्कृत्य दुर्योधनपुनस्तस्य कवजे सायकान्दशा निचखानस्वर्णपुङ्गान् भित्वा वर्मतनौ गदाः सहस्रायर्बाणपडलै सहस्राश्वाञ्जखानः चिच्छेदबाणशतखैकोदण्डं सगुणम् परम् शम्बरारेर्महावीरोधृतराष्ट्रसुदो बली प्रद्युम् नस्तं त्यक्त्वा धान्यमारुह्य सत्वरं कृष्णदत्तं धनुर्नित्वा सज्जं कृत्वा विधानदः एकं बाणसमाधाय कर्णान्तं तं चकर्षः भुजदण्डस्य वेगेन तद्रथे निचकर्षः गृहीत्वा तद्रधं बाणो भ्रामयित्वा खडीद्वयम् आकाशा पादयामासकमण्डलुमिवार्भगः पतनेन रथः सद्यश्चूर्णीभूतो बभूवः ससूताश्च हया सर्वे पञ्चतां प्राभुरभ्रदः अन्यं रथं महाबलः प्रद्युम्नं ताडयामास्तदश्यभि सायकै मृधे तैस्ताडिदो पुत्रो मालागत इव द्विपः दण्डे तथैकम् बाणमादधे बाणस्तम् शरदम् नीत्वा यावत् प्रागान् महाम्बरे तावत् बाणोद्वितीयोऽपि गृहीत्वा यय उरम् मन्दिराजिरे धृतराष्ट्रसमीपे च शरदम् साश्वसारथिम् आकाशात् पादयामास पतनेन विशीर्णो भूद् धङ्गार इव तद्रथः सुयोधनो मूर्छितो भू दुद्वमन्रुधिरम् मुकाद इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलासंवादे कौरव युद्धवर्णनं नाम, नाम विंशोऽध्यायः ओम्